अथ चत्वारिंशः सर्गः श्रुत्वा तु वचनम् तस्य वायसूनोर्महात्मनः उवाचात्महितम् वाक्यम् सीतासुरसुतोपमा त्वाम् दृष्ट्वा प्रियवक्तारम् सम्प्रहृष्यामि वा नरा अर्धसञ्जातसस्येव प्राप्य वसुन्धरा यथा तम् पुरुषव्याघ्रम् शोकाभिकर्षितैः संस्पृशेयम् सकामाहं तथा कुरु दयाम् रामस्य दद्या हरिगणोत्तमा क्षिप्तामिषीकाम् काकस्य कोपादेकाक्षिशातनी मनः शिलायास्तिलको गण्डपार्श्वे निवेशितः त्वया प्रणष्टे तिलके तम् किल स्मर्तुमर्हसि सवीर्यवान् कथम् सीताम् हृताम् वसन्तीम् रक्षसाम् मध्ये महेन्द्रवरुणोपमा एष चूडाम निर्दिव्यो मया सुपरिरक्षितः एतम् दृष्ट्वा प्रहृष्यामि व्यसमे त्वामि एष निर्यातितः श्रीमान् मया ते वारिसम्भवः अतः परम् शोकलालसा असह्यानि च दुःखानि वाचश्च हृदयच्छिदः राक्षसैः सह सम्वासम् त्वत्कृते मर्शयाम्यहम् धारयिष्यामि मासम् तु जीवितं शत्रुसूदना मासादूर्ध्वम् न जीविष्ये त्वया हीना नृपात्मजा घोरो राक्षस राजोऽयम् दृष्टिश्च न सुखामयि त्वाम् च श्रुत्वा विषज्जन्तम् न जीवेयमपि क्षणम् वयि देह्यावचनम् अथा ब्रवीन् महातेजा हनूमान् मारुतात्मजः त्वच्छोकविमुखो रामो देवि सत्येन ते शपे रामे शोकाभिभूते तु लक्ष्मणः परितप्यते दृष्ट्वा कथञ्चिद्भवति का न कालः परिदेवितुम् इमम् मुहूर्तम् दुःखानामन्तम् द्रक्ष्यसि भामिनी ताबुभौ पुरुषव्याघ्रौ राजपुत्रावनिन्दितौ त्वद्दर्शनकृतोत्साहौ लङ्काम् भस्मीकरिष्यतः हत्वा तु समरे रक्षो रावणम् सह बान्धवैः राघवौ त्वाम् विशालाक्षि स्वाम् प्रतिनेष्यतः यत्तु रामो विजानीयादभिज्ञानमनिन्दिते प्रीतिसञ्जननम् भूयस्तस्य त्वम् दातुमर्हसि सा ब्रवी दत्तमेवाहो एतदेव हि रामस्य दृष्ट्वा यत्नेन भूषणम् श्रद्धेयम् हनुमन्वाक्यम् तव वीरभविष्यति सतम् मणिवरम् गृह्य श्रीमान् प्रमगसत्तमः प्रणम्य शिरसा देवीम् गमनायोपचक्रमे तमुत्पातकृतोत्साहमवेक्ष्य हरियूथपम् वर्धमानम् महावेगमुवाच जनगात्मजा अश्रुपूर्णमुखी दीनाबाष्पगद्गदया गिरा धनो मन्सिंहसङ्काशौ भ्रातरौ रामलक्ष्मणौ सुग्रीवम् च सहामात्यम् सर्वान् ब्रूया अनामयम् यथा च स महाबाहुर्माम् तारयति राघवः अस्माद्दुःखाम्बु संरोधा त्वम् समाधातुमर्हसि इदम् च तीव्रम् मम शोक वेगम् रक्षोऽभिरेभिः परिभर्त्सनम् च ब्रूयास्तु रामस्य गतः समीपम् शिवश्च ते ध्वास्तु हरिप्रवीर स राजपुत्र्या प्रतिवेदितार्थः कपिः कृतार्थः परिहृष्ट मनसा जगाम त्यार्षे श्रीमद् वाल्मीकिये वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे चत्वारिंशत्